नमस्कारः अस्माकं योगनित्यजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र करपत्रस्य पठनात् प्राक् किञ्चित् वक्तुमिच्छामि तर्हि अत्र मुखमार्गः इति चेत् कर्मयोगः ज्ञानयोगः अनन्तरं भक्तियोगः इति वदन्ति खलु अत्र अहं किं वक्तुमिच्छामि इति चेत् यः कर्मयोगी अस्ति तस्य कर्मयोगेन मोक्षप्राप्तिः न भवति यदा तस्य मनसि भक्तिभावः नास्ति इत्युक्ते कर्मणः प्रबलता कर्म कर्म कर्मणः प्रबलता तदानीमेव भवति यदा तत्र भक्तिः अपि अस्ति परमपुरुषं प्रति प्रेमभावः यदा भवति तदानीमेव कर्मणः महत् माहत, महात् अस्ति केवलं कर्म एव करोति चेत् तत्र तेन किमपि न लभ्यते तर्हि कर्मयोगः इति चेत् तत्र कर्मयोगेन मोक्षः न लभ्यते इत्युक्ते तत्र मनसि केवलं कर्मभावः एव अस्ति परन्तु परमपुरुषं प्रति प्रेमभावः नास्ति चेत् तेन किमपि न किमपि न भवति तेन तत्र समयस्य व्ययः एव भवति भक्तिविहीन भक्तिविहीनं कर्म वस्तुतः अनर्थकम् अस्ति तेन किमपि न लभ्यते एवमेव एव तपस्य इत्युक्ते जनाः इत्युक्ते तत्र सामान्यतया तप तपः तप तपस्या इत्युक्ते ये जनाः एकस्मिन् पादे तिष्ठन्ति जले तिष्ठन्ति अथवा अन्यत्र तिष्ठन्ति अथवा जलजलस्य मध्ये बा, मध्यभागे गच्छन्ति इति एवं रीत्या वयं शृण्मः तपस्या इत्युक्ते वस्तुतः तपः तपः इत्युक्ते किम् इति चेत् शारीरिककष्टम् अथवा मानसिककष्टं अन्यस्य सहायार्थं यदा सेवां वयं कुर्मः तत् तस्मिन् सन्दर्भे यदा तत्र शारीरिककष्टम् अनुभवामः अथवा मानसिककष्टम् अनुभवामः तदेव वयं तपः इति वयं वदामः तत्र सेवाभावः अवश्यं भवेत् तत्रापि यदि वयं तपः तपः कुर्मः अथवा तपस्यां कुर्मः तत्र परन्तु मनसि परमपुरुषं प्रति प्रेमभावः नास्ति भक्तिभावः नास्ति चेत् तदानीं तदपि अनर्थकमेव तपः अपि अनर्थकमेव तदपि समयस्य व्ययः एव तर्हि तपस्य प्रेमभाव भक्तिविहीनभक्तिविहीनविहीना तपस्य वस्तुतः हानिकारक हानिक हानिकारिक अस्ति तर्हि कर्मयोगः अपि तत्र अनर्थकं भवति कर्मयोगः अनर्थकः भवति भक्तिभावः नास्ति चेत् तपः अपि अनर्थकं भवति भक्तिभावः नास्ति चेत् तत्र केवलं वस्तुतः तादृशतपः यत्र भक्तिभावः नास्ति तत्तु हानिकारकं भवति शारीरिकदृष्ट्या मानसिकदृष्ट्या हानिकारकं भवति यतोहि तत्र यदा वयं कुर्मः तदानीं तत्र स्वार्थभावः भवति खलु ओ मम कृते अहं करोमि इति भावः भवति यत्र मनसि प्रेमभावः नास्ति परमपुरुषं प्रति तत्र स्वार्थः एव भवति तदानीं स्वा स्वार्थभावेन मनस् मनसः अधो अधोगमनमेव भवति अधो अधो पतनमेव भवति अधः पतनमेव भवति तर्हि अत्र इति कृत्वा तत्र कर्मयोगः वा तपः वा भक्तिभावः भक्तिभावं विना तत्तु हानिकारकमेव भवति एवं वयं पश्यामः यः यः शुष्कयोगी वर्तते शुष्कयोगी वर्तते यः यः हत हतयोगी वर्तते यः किं चिन्तयति हतयोगी सः प्रतिदिनं भिन्नभिन्न आसनानि भिन्नभिन्न आसनानि करोति अनन्तरं सः चिन्तयति योगः चित्तवृत्तिनिरोधः इति चिन्तयति इत्युक्ते तत्र सर्वेषां सर्वासां वृत्तीनां निवर्तनम् एव योगः इति यः चिन्तयति सः तस्यापि अग्रगतिः वस्तुतः न भवति तस्य तु अधोगमनमेव भवति यतोहि तस्य मनसि प्रेमभावः नास्ति एवं यदा तस्य मनसि प्रेमभावः नास्ति सः चित्तवृत्तिनिरोधं कर्तुम् इच्छति तदानीं किं भवति इति चेत् तत्र वृत्तयः सन्ति निरोधः यदा भवति तस्य आधारः न भवति तस्य आधारः तदानीम् आधारः आधारः नास्ति इति कृत्वा तत्र मनः इतोपि स्थूलं भवति स्थूलं भवति तादृश वृत्तीनां निरोधः यदा भवति परन्तु तस्य मनसि प्रेमभावः भवति तदानीं परमपुरुषः भवति तदानीं ता तादृश वृत्तीनां निरोधः यदा जायते तदानीं तत्र परमपुरुषः आधारः भवति आधारः भवति चेत् तदानीम् अग्रगतिः भवति परन्तु यस्य पुरुषस्य यः शुष्कयोगी वर्तते योगी वर्तते तस्य मनसि प्रेमभावः नास्ति सः केवलं वृत्तीनां निरोधः एव तेन केवलं वृत्तीनां निरोधः एव क्रियते तदानीं तत्र अवश्यमेव अग्रगतिः न भवति अधोगतिः एव भवति तस्य मनसः पतनम् एव भवति सः यः भक्तिविहीनः योगी अस्ति सः तु निश्चयेन अग्रिमजन्मनि तस्य तु जन्म स्थूल वस्तुवत् भवति तस्य जन्म यत् काष्ठः काष्ठः इव वा नो तत्र शिलाखण्डः इव तस्य जन्म भवति यतोहि तत्र ईश्वरप्रेम ईश्वरप्रेमभावः नास्ति खलु केवलं वृत्तीनां निरोधेन तत्र तस्य अग्रगतिः न भवति तस्य अधोगतिः एव भवति तत्र तादृशशुष्कयोगी यस्य मनसि प्रेमभावः नास्ति सः तत्तु मनसः अग्रगत्यर्थं हानिकारकं वर्तते एवम् लोके जनाः स्थूल स्थूलवस्तु प्राप्तुं ते यत्नं कुर्वन्ति जनाः यत्नं कुर्वन्ति तर्हि तत्र किं भवति इति चेत् तेषां मनसि भक्तिभावः नास्ति अपि ये जडज्ञानी यः जडज्ञानी अस्ति सः चिन्तयति इति चेत् अहम् अधिकम् अधिकम् अधिकं अधिकम ज्ञानं सम्पाद चेत् अग्रगतिः भवति इति सः चिन्तयति वस्तुतः तथा नास्ति इत्युक्ते यः जडज्ञानी अस्ति यः जनज्ञानी यः लौकिकज्ञानं प्राप्तुम् इच्छति यस्मिन् कस्मिन्नपि क्षेत्रे भवतु नाम अथवा यः तथाकथितशास्त्रस्य ज्ञानं प्राप्तुम् इच्छति तस्यापि अग्रगतिः न भवति यदा तस्य मनसि प्रेमभावः नास्ति तस्य मनसि भक्तिभावः नास्ति तर्हि इदानीं तत्र उदाहरणरूपेण वयं पश्यामः चेत् एकः आम्रवृक्षः अस्ति तर्हि यः जडज्ञानी अस्ति सः आम्रवृक्षस्य समीपे गच्छति चेत् सः किं करोति इति चेत् सः तत्र आम्रफलानि सन्ति इति कृत्वा तत् तानि स्वीकृत्य सः खादति वा न तस्य मनसि प्रश्नाः भवन्ति ओ इद अयं तु आम्रवृक्षः अस्ति तत्र कति फलानि सन्ति फलस्य वर्णः कः तत्र किमर्थं इदं फलम् एवम् अस्ति इद किमर्थम् इदं फलम् अन्येभ्यः फलेभ्यः भिन्नः अस्ति इति एवं रीत्या तः सः वादविदा वादविवादः वादविवादं करोति अथवा तस्य मनसि तर्कालोचना तर्कालोचना जायमाना भवति तर्हि सः करोति एवं चिन्तने एव स भवति इति कृत्वा सः न खादति आम्रफलस्य स्वादं न सः न अनुभवति परन्तु यः भक्तः अस्ति सः तस्य तु सम्पूर्णविश्वासः भवति परमपुरुषे सः सः चिन्तयति यत्किमपि अस्ति जगति तत्सर्वं परमपुरुषस्य अस्ति यत्किमपि सः इच्छति तदेव भवति इति सा तथा अनुभवति इति कृत्वा यदा सः आम्रफलस्य आम्रफलवृक्षस्य समीपे गच्छति तदानीम् आम्रफलानि पश्य सः पश्यति सः चिन्तयति ओ परमपुरुषः मम कृते आम्रफलानि परमपुरुषेण आम्रफलानि दत्तानि इति चि सः साक्षात् आम्रफलं स्वीकृत्य खादति तत्र समयस्य व्ययः व्य न करोति परन्तु जडज्ञानी तथा नास्ति यः ज्ञानी अस्ति सः किं करोति इति तत्र गत्वा केवलम् आलोचना आलोचनामेव करोति ओ एवम् अस्ति वा एवमस्ति वा इति सः चिन्तयति एवं तत्र समयस्य व्ययः भवति तत् तेन तत्र आम्रफलमेव नश्यति आम्रफलमेव राटन् भवति इतिकृत्वा तत्र यः भक्तः अस्ति तस्य सम्पूर्णविश्वासः अस्ति यतोहि तस्य मनसि समर्पणः समर्पणभावः अस्ति खलु तस्य मनसि शरणागतिभावः अस्ति शरणगतिभावः अस्ति इति कृत्वा सः चिन्तयति यत्किमपि जायमा यत्किमपि लोके जायमानम् अस्ति तत्तु परमपुरुषस्य इच्छानुगुणं जायमानम् अस्ति स तु प्रपत्तिवादे तस्य विश्वासः अस्ति सः चिन्तयति अस्मिन् जगति यत्किमपि तृणमपि तस्य इच्छा विना तस्य इच्छां विना न गच्छति न तस्य गतिः तस्मिन् गतिः न भवति इति तादृश तादृशं सः चिन्तयति भक्तः अतः आम्रफलं दृष्ट्वा साक्षात् साक्षात् रसस्य स्वादम् अनुभवति तत्र भक्तस्य हृदि सर्वदा रसः भवति परमपुरुषस्य प्रेमभावः भवति चेत् तस्य हृदि रसः भवति परमपुरुषः कः परमपुरुषः रसो वै रसः अस्ति सः साक्षात् रसः अस्ति तर्हि यत्र भक्तिभावः भवति मनसि तदानीं तत्र परमपुरुषस्य वासः भवति यतोहि यत्र रसः भवति यदा भक्तिभावः भवति अस्माकं हृदिः तत् तत्र अस्माकं हृदयः तत्र शिष्कं न भवति हृदयः शिष्कं न भवति चेत् तदानीं तत्र रसः भवति भक्तिभावेन रसः भवति रसः अस्ति चेत् किं तस्य को अर्थः परमपुरुषस्य वासः अस्ति इति अर्थः किमर्थम् इति चेत् परमपुरुषः कः परमपुरुषः रसः अस्ति रसः एव साक्षात् तर्हि मनसि भक्तिभावः अस्ति चेत् रसः अस्ति रसः अस्ति तस्य अर्थः कः परमपुरुषस्य वासः अस्ति अर्थः परन्तु यः जडज्ञानी सर्वदा ज्ञानार्जने तस्य समयस्य व्ययः भवति जडज्ञानस्य तर्हि तेन किं भवति इति चेत् तस्य मनसः एव भवति अहङ्कारः वर्धते यदा अधिकं ज्ञानं सम्पादयामः तदानीम् अस्माकम् अहङ्कारः वर्धते तदानीम् अस्माकं चिन्तनं कथं भवति ओ अहम् अहमेव श्रेष्ठा अस्मि अहमेव श्रेष्ठः अस्मि अन्यस्य अपेक्षया सः य यत्किमपि वदति तत् सम्यक् नास्ति अहं यद्वदामि तदेव सम्यक् अस्ति इति कृत्वा तत्र अस्माकं मनसि अहङ्कारस्य भावः वर्धते इत्युक्ते अस्य अर्थः किं ज्ञान ज्ञानं कदापि न अर्जनीयम् इति वा न तथा नास्ति ज्ञानस्य महत्वं वर्तते ज्ञानम् अपेक्षितमस्ति ज्ञानम् अर्जयित्वा तस्य जीवने व्यवहारे पालनम् अपि अपेक्षितं केवलं ज्ञानं ज्ञानस्य अर्जनं कुर्मः अधिकज्ञानस्य आर्जनं कुर्मः परन्तु जीवने तस्य आनयनं नास्ति तस्य पालनं नास्ति तदानीं तादृशज्ञानस्य लाभः नास्ति इदानीं तत्र तत्र विमाने वयं गच्छामः एकस्मात् स्थलात् अन्यस्मिन् अन्यस्मिन् स्थले तदानीं तत्र विमानस्य गमनार्थं तत्र तु ज्ञानस्य अपेक्षा वर्तते खलु विमानस्य गतिः कथं भवेत् विमानस्य आयोजनं कथं भवति इति तत्र ज्ञानम् अपेक्षितम् अतः ज्ञानस्य महत्वं वर्तते ज्ञानं नास्ति इति न ना, ज्ञानं मास्तु इति न ज्ञानम् आवश्यकं परन्तु ज्ञानमेव सर्वं नास्ति इत्युक्ते वयम् अधिकं प्राधान्यं ज्ञाने वयं दद्मः चेत् तदानीं किं भवति इति चेत् अस्माकम् अहङ्कारः एव वर्धते अहङ्कारः यदा वर्धते तदानीं मनसः अधोगमनमेव भवति अग्रगतिः न भवति तदानीं मनुष्यः कथं भवति इति चेत् अहङ्कारेण सः नष्टः भवति तदानीं तत्र तस्य तस्य मनः बहु स्थूलं भवति बहु स्थूलं पाषाणखण्डवत् स्थूलं भवति तदानीं तस्य अग्रिमजन्मनि तत्र तस्य जन्मपाषाणखण्डः एव भवति अथवा पशुवत् भवति अथवा सस्यवत् भवति तर्हि यदा अस्माकं मनः ज्ञानेन गर्वितः गर्वितं भवति मनः तदानीं वयम् अस्माकं वयं तु पशुवत् भवामः पशुवत् पवामः अतः अत्र सारांशः कः इति चेत् तत्र इत्युक्ते अत्र यदा मनः परमपुरुषे विलीनं भवति तदानीं ज्ञानमपि सम्यक् भवति भक्तिभावं विना भक्ति भक्तिविहीनं ज्ञानं बहु हानिकारकम् अस्ति भक्तिविहीनं ज्ञानं हानिकारकम् अस्ति लौकिकज्ञानं वा भवति ल भवतु अथवा तथाकथित शास्त्रीयज्ञानं वा भवतु यत् किमपि भवतु नाम परन्तु तत्तु हानिकारकमेव भवति अपि तत्र पुस्तकीयज्ञानं पुस्तकीयज्ञानेन मोक्षः तु न लभ्यते इत्युक्ते यदा वयं दशवारम् अथवा शतं वारम् अहं ब्रह्मास्मि अहं ब्रह्मास्मि अहं ब्रह्मास्मि इति वयं शतवारं पठामः पुस्तकात् तदानीं वयं ब्रह्म न कदापि नास्ति खलु इत्युक्ते लोके ये जनाः पुनः पुनः पठन्ति अहं ब्रह्मास्मि अहं ब्रह्मास्मि इति अथवा इति पठन्ति तेन तत्र मोक्षः लभ्यते वा इति चेत् न तादृशकेवलं ज्ञानेन मोक्षभाव मोक्षः न लभ्यते तत्र मनसि भक्तिभावः नास्ति चेत् तदानीं न लभ्यते इति अत्र इति अत्र उक्त्वा तर्हि अत्र भक्तिः कीदृ कीदृशी भवेत् भक्तिः एतात् पूर्वमपि अस्माभिः चर्चितं तत्र वस्तु वस्तुतः त्रिविधलौकिक लौकिकभक्तयः सन्ति तत्र तामसिकीभक्तिः राजसिकीभक्ति सात्विकीभक्तिः तामसिकीभक्ति भक्तिः इत्युक्ते वस्तुतः भक्तिः एव नास्ति सा, सा भक्ति सा भक्तिः भक्तिः एव नास्ति तर्हि तत्र या तामसिकभक्तः अस्ति तस्य मनसि किं भवति इति तस्य मनसि इच्छा भवति तत्र का इच्छा इति चेत् मम ये शत्रवः तेषां नाशः भवतु इति तस्य मनसि इच्छा अस्ति सः परमपुरुषम् अङ्गीकरोति परमपुरुषः अस्ति इति अङ्गीकरोति हे परमपुरुषः मम शत्रवः ये सन्ति तेषां नाशः भवतु इति तस्य इच्छा अस्ति अतः तस्य लक्ष्यं परमपुरुषः नास्ति इति कृत्वा सः परमपुरुषं कदापि न प्राप्नोति यतोहि तस्य लक्ष्यं परमपुरुषः नास्ति एवं या यः यः राजसिकभक्तः अस्ति तादृशभक्तिः अपि वास्तविकी भक्तिः नास्ति सः किं चिन्तयति इति चेत् सः परमपुरुषस्य अस्तित्वम् अङ्गीकरोति परन्तु सः किं इति चेत् सः लौकिकवस्तु वस्तु एव सः इच्छति तस्य तस्यापि मनसि इच्छा इच्छा अस्ति कीदृशी इच्छा इति चेत् ओ मम पुत्रस्य विवाहः भवतु अथवा मम धनं भवतु मम गृहं भवतु इति एवं रीत्या तस्य लौकिक इच्छा भवति तस्य अपि लक्ष्यं परमपुरुषः नास्ति यतोहि तस्य लक्ष्यं परमपुरुषः नास्ति इति कृत्वा सः अपि परमपुरुषम् कदापि न या यः सात्विकभक्तः अस्ति तत्र सादृशभक्तः सः अपि परमपुरुषम् अङ्गीकरोति परन्तु सः किम् इच्छति इति चेत् हे भक्तः हे परमपुरुषः मम मुक्तिः भवतु इति सः इच्छति किमर्थम् एवम् इच्छति इति चेत् यतोहि तस्य शरीरे तत्र बलं नास्ति तस्य शरीरे बलं नास्ति हस्तः पादः हस्तपादादयः सम्यक्तया कार्यं न कुर्वन्ति इति कृत्वा इदानीं सः सः लोके जीवितुं न इच्छति तदानीं सः वदति हे परमपुरुषः मम मुक् मम मुक्तिः भवतु इति सः प्रार्थयति तर्हि तस्य लक्ष्यं परमपुरुषः अस्ति वा इति चेत् न तस्य लक्ष्यमपि परमपुरुषः नास्ति यतोहि यतोहि तस्य तस्य मनसि अपि अन्या इच्छा अस्ति कीदृशी इच्छा इति चेत् मुक्तिः भवतु परन्तु मुक्तिः किमर्थं भवतु इति चेत् तस् हस्तपदादय स्यम न कदि तर हस्पद सब्यक्या कदान सह मोक्ष न इच्छति सह मोक्ष नदी वास्तविकी भक्ति भक्ति नर् शुद्ध भक्ति कीदशी चेत वस्तु शुद्धाक्तिधवधा अस्सी एक राग रागानुगा रागा भक्ति द्वितीया तु रागात्मिका भक्तिः रागानु रागानुगभक्तिः इत्युक्ते यत्र सः भक्तः तु परमपुरुषम् अवश्यम् अङ्गीकरोति तस्य लक्ष्यमपि परमपुरुषः अस्ति परन्तु तस्य मनसि अन्या अपि एका इच्छा वर्तते कीदृशी इच्छा यद्यपि सा इच्छा बहु आ, उत्तमा इच्छा एव इत्युक्ते सः इति, इति चेत् हे हे परमपुरुषः अहं भवतः भक्तिं कर्तुम् इच्छामि यतोहि मम मनसि आनन्दः जायते मम हृदि आनन्दः जायते इति कृत्वा अहं परमपुरुषस्य भक्तिं करोमि इत्युक्ते मम आनन्दः लभ्यते इति तादृश इच्छा तस्य अस्ति यद्यपि इयं भक्तिः उच्चतरा एव तथापि तत्र तस्य मनसि इच्छा अस्ति आनन्दः भवतु इति इच्छा अस्ति इति कृत्वा तस्यापि अपेक्षया उच्चतमा उच्चतमा भक्तिः कीदृशी भक्तिः इति चेत् रागात्मिका भक्तिः रागात्मिका भक्तिः इति कीदृशी भक्ति की भक्तिः इति थि चेत् यस्यां यस्यां भक्त्यां तत्र साधकः किमपि न इच्छति किमपि न इच्छति सः किं किं किमर्थं सः भक्तिं करोति इति चेत् सः चिन्तयति हे परमपुरुषः मम भक्तिभावेन भवतः आनंदः भवतु अहं भवन्तम् अहं भवन्तं प्रीतयितुं अथवा प्रीणयितुं प्रीणयितुम् इच्छामि इति एव तस्य तस्य मनसि भावः अस्ति सः अन्यत् किमपि ना, इच्छति लौकिकवस्तु वा भवतु अथवा आनन्दः अपि सः न आनन्दमपि प्राप्तुं सः न इच्छति तर्हि तादृशभक्तिः एव उच्चतमा भक्तिः वर्तते अस्माभिः सर्वैः अपि तादृशभक्तिं प्राप्तुम् अस्माभिः यत्नः अवश्यं करणीयः इत्युक्ते लौकिकवस्तु वस्तुनः प्रापणेन कः को वा लाभः अस्ति अन्ततो गत्वा तेन अस्माकं अस्माकम् अस्माकम अग्रगतिः न भवति तद्वस्तु अपि तत्र क्षणिकमेव अस्ति इदानीं लभ्यते इदानीं तत्र सन्तोषः अस्ति इति भाति परन्तु अग्रिमक्षणे तद्वस्तु वयं पश्यामः चेदपि अस्माकं मनसि तत्र किमपि न भावः सन्तोषः नास्ति पूर्वं यद् वस्तु प्राप्तुम् अस्माभिः बहु यत्नः कृतः परमपुरुषस्य प्रार्थना कृता परन्तु इदानीं तेन तेन तेन वस्तुना तत्र न कोऽपि लाभः खलु इति कृत्वा तादृशभक्तिभावेन वस्तुतः तादृशभक्तिः एव नास्ति तत्र तामसिकीभक्तिः भवतु राजसिकीभक्तिः भवतु सात्विकीभक्तिः भवतु भक्तिः एव नास्ति तादृशभक्तिभावेन न कोऽपि लाभः अतः अस्माभिः कीदृशी कीदृश कीदृशभक्तिं प्राप्तुम् अस्माभिः यत्नः करणीयः इति चेत् रागात्मिका भक्तिः एव उच्चतमा भक्तिः तादृशभक्तिं प्राप्तुम् अस्माभिः सर्वैः यत्नः करणीयः तत्र किं भवति इति चेत् तत्र सम्पूर्णशरणागतिः भवति तदेव प्रपत्तिमार्गः इति वयं वदामः यतोहि तस्मिन् तस्मिन् मार्गे किं भवति इति चेत् यत्किमपि भवति तत्तु परमपुरुषस्य इच्छानुगुणं भवति मम इच्छा किमपि नास्ति यत्किमपि भवति तस्य अनुग्रहेण भवति अहं तस्य यन्त्रः अस्मि अहं तस्य हस्ते यन्त्रः अस्मि सः मम उपयोगं सः करोति अतः सः यत् कार्यं वदति तदा तदेव अहं करोमि इति इति तादृश तादृशभावना तस्य मनसि भवति एवं यस्य पुरुषस्य मनसि एतादृशभावना अस्ति अहं यत्किमपि करोति परमपुरुषस्य कृते करोमि इति भावना अस्ति तस्य मनसि तु आनन्दः सर्वदा भवति एव यतोहि सः तु परमपुरुषस्य यन्त्रः अस्ति परमपुरुषः यस्य मनसि एतादृशभक्तिभावः अस्ति त सः तु तस्य दासः भवति परमपुरुषः तस्य दासः भवति इत्युक्ते तस्य अर्थः कः इति चेत् जा, सः तस्य तत्र आकर्षितः भवति तस्य आकर्षितः भवति सः तत्र गन्तुं परमपुरुषः तत्र गन्तुं सः सु झटिति तत्र गच्छति इति कृत्वा यस्य पुरुषस्य हृदि तादृशभक्तिभावः अस्ति तत्र रसः अपि भवति तत्र आनन्दः अपि अवश्यमेव भवति इति उक्त्वा अत्र अग्रे अस्माकं करपत्रं प्रति गच्छामः अत्र अस्माकं करपत्रे किम् अस्माभिः चिन्तितम् इति चेत् तत्र अयं संसारः कः इति विषयः जायमानः अस्ति तत्र अस्माभिः दृष्टं परमपुरुषः निर्गुणावस्थायां भवति तत्र किमपि न भवति तत्र यदा निर्गुणावस्थायाम् अस्ति यदा सः चिन्तयति अहम् एकोऽहं बहु स्याम् इति तत्र जगतः सृष्टिम् अहं करोमि इति यदा सः चिन्तयति तदानीं सः प्रकृतेः कृते अनुमतिं ददाति तदानीं तत्र सृष्टिः आरभ्यते प्रथमतः मनः निर्मितं भवति भूमौ मनः निर्मितं भवति तत्र भूममनसः त्रयः अंशाः महत्तत्त्वम् अहं तत्त्वम् अपि च चित्तं महत्तत्त्वं प्रभावेन पुरुषस्य उपरि महत्तत्त्वं निर्मितं भवति तदनन्तरं रजोगुणस्य प्रभावेन महत्तत्त्वे अहं तत्वं निर्मितं भवति अनन्तरं तमोगुणस्य प्रभावेन अहं तत्वे चित्तं निर्मितं भवति इत्येवं मनसः त्रयः अंशाः निर्मितं भवति एकवादनात् आरभ्य त्रिवादनपर्यन्तं सृष्टिचक्रे तत्र ततः अग्रे किं भवति इति चेत् यदा त तमोगुणस्य प्रभावः चित्तस्य उपरि अधिकं भवति तदानीं तत्र पञ्चभूतानि निर्मितानि भवन्ति प्रथमतया तत्र आकाशस्य निर्माणं भवति इति दृष्टं तत्र आकाशस्य आकाशस्य निर्माणे आकाशे वस्तुतः किमपि नास्ति आकाशः आकाशे किमपि वस्तु नास्ति तथापि तत्र शब्द शब्दतन्मात्रं आकाशे गच्छति इति कृत्वा शब्दः आकाशः अपि स्थूलः इति वयं स्वीकर्तुं शक्नुमः तत् अस्मत् भूमामनसः अपेक्षया आकाशः स्थूलः वर्तते तदनन्तरम् आकाशात् वायोः निर्माणं भवति वस्तुतः यदा चित्तस्य उपरि समगुणस्य प्रभावः अधिकः भवति तदानीं चित्तमेव वायुरूपेण वा परिणमते तर्हि चित्तम् आकाशस्य अपेक्षया इतोपि न वायुः आकाशस्य अपेक्षया इतोपि स्थूलः वर्तते यतोहि वायौ तन्मात्राद्वयं वर्तते तत्र शब्दतन्मात्रम् अपि च स्पर्शतन्मात्रम् इति तन्मात्रद्वयं वायौ वर्तते इति अस्माभिः एतावत्पर्यन्तम् अस्माभिः प्राप्तम् आसीत् वस्तुतः आकाशात् वायुपर्यन्तं प्राप्तमासीत् इदानीं ततः अग्रे अस्माभिः गन्तव्यम् इतः अग्रे इदानीं वायोः अग्निः अग्नेः अग्नि तेजसत्त्वस्य निरूपणम् इदानीं भवति तर्हि अग्रे गच्छामः तत्र किं सरिताभगिनी पठितुमिच्छति वा मम स्क्रीन् न दृश्यते खलु एकक्षणं प्रदर्शयामि दृश्यते वा भगिनी कृपया पठतु भगिनी हा पठामि वायुट् त्वस्य अनंतरम चित्तं स्वयम् तेजसत्वरूपेण व्यक्तीकरोति अग्नि अग्निं द्रष्टुं शक्यते अतः च तस्य आकारः रूपं वा अस्ति इति वक्तुं शक्यते अग्नौ रूप तन्मात्रं भावनातः भावना बिम्बं वा रूपं वा उत्पाद्यते तस्मात् स्पन्दनम् अस्ति अन्यथा वयम् अग्निं द्रष्टुं न शक्नुमः स्पर्शेण अपि अग्निः अनुभूयते अतः तस्य स्पर्शतन्त्रं शब्दतन्त्रं च उभयम् अपि वर्तते तेजस्तत्त्वे तन्मात्रयं तेजस वर्तते रूपं स्पर्शं शब्दं च तेजस्तत्वस्य तन्मात्रयम् अस्ति इत्यतः तत् वायुतः स्थूलतरं भवति तेजस्तत्त्वं वायुतत्त्वस्य अनन्तरम् निर्मितम् अत्र उक्तम् वायुतत्त्वस्य प्रथमं तु आकाशतत्त्वम् उत्पद्यते तदनन्तरम् वायुतत्त्वम् उत्पद्यते तदनन्तरं चित्तमेव आकाशतत्व अनन्तरं वायुतत्वस्य रूपं गृह्णाति इदानीं वायुतत्वात् तेजस्तत्त्वं व्यक्ति व्यक्तं भवति अग्निं तु द्रष्टुमपि शक्यते स्पर्शे अ, स्पर्शं कर्तुमपि शक्यते अतः अग्नि अग्नेः रूपम् अपि अस्ति स्पर्श रूपमस्ति अतः स्पर्शमपि कर्तुं शक्यते अण्ड् द्रष्टुमपि शक्यते अग्नौ स्पन्दनं तस्मात् स्पन्दनं स्पन्दनम् अहं किञ्चित् स्पन्दनम् अग्नेः स्पन्दनं कथम् इति किञ्चित् मया न यदा अग्नि ज्वलति तत्र स्पन्दनमस्ति खलु अग्नौ तदानीम् आकारः दृश्यते खलु अग्नेः आकारः दृश्य दृश्यते तदेव तत्र उच्यमानमस्ति रूपतन्मात्रमपि अग्नौ अस्ति तद् जानीमः इति चेत् यदा अग्निः अग्निः ज्वलति तदानीं तत्र स्पन्दनं भवति तत्र स्पन्दनं यदा भवति तदानीम् आकारः दृश्यते अस्तु इदानीं सः uh, uh, अग्निं वयं द्रष्टुमपि शक्नुमः स्पर्शं कर्तुमपि शक्नुमः अतः तस्य अग्नौ स्पर्शतन्मात्रम् अपि च शब्दतन्मात्रं वर्तते रूपतन्मात्रा अपि अग्नौ वर्तते uh, अग्नौ uh, त्रयतन्मात्रा भवति रूप शब्द स्पर्श अतः अग्नि वात स्थूलतर वर्त अख्या तत्लतर आकाशव श वर्तवते अतः सूक्ष्म वर्तौ दौर स्थ आकाश अपेक्षा वायु स्थूलतर अस्त वाय ता अपेक्षा अग्ने त्रय तन्मात्रा वर्तते अतः अग्निः वायो अपेक्षा स्थूलं भवति इति अत्र लिखितमस्ति तेजस्तत्वं hmm. वायुतत्वस्य अनन्तरं निर्मितं प्रथमम् आकाशतत्त्वं निर्मितं तदनन्तरं वायुतत्त्वं तदनन्तरं वाय। तेजस्तत्त्वम् अर्थात् अग्नितत्त्वं निर्मितम् अस्ति समीचीनं धन्यवादः तन्मात्रम् अत्र त्रीणि तन्मात्राणि सन्ति इति वक्तव्यं त्रयः त्रीणि तन्मात्राणि सन्ति समीचीनं सम्यक् सम्यक् अस्तु अत्र स्पष्टमिति भाति अत्र कोऽपि प्रश्नः अस्ति वा अस्तु अग्रे गच्छामः तत्र प्रियपद्नि पठितुम् इच्छति वा तेजस्तत्वम् अनन्तरं जलं द्रवं निर्मितं चित्तेन स्थूलतरं स्थूल स्थूलतरं रूपं गृहीतं जलं द्रवमस्ति जले रुचिः च अस्ति अतः जले रसं रसतन्मात्रम् अस्ति रसतन्मात्रम् अतिरिच्य जले शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रम् अपि अस्ति अतः नेः अपेक्षया स्थूलतरम् अस्ति एकम् सरलप्रयोगम् कृत्वा जले शब्दतन्मात्रम् अस्ति इति अवलोकयितुम् शक्यते कश्चित् जलस्तरे एकत एकतटात् वदति अन्यतटे च समानस्तरस्य कर्णेन सः शब्दः श्रूयते जलम् स्पष्टुम् स्पष्टुम् स्पष्टुं स्पर्श स्पर्ष्टुम् शक्यते तस्य रूपम् च अस्ति यत् द्रष्टुम् शक्यते अतः जलस्य चत्वारि तन्मात्राणि सन्ति शब्दः स्पर्शः रूपम् रसः च जलम् तेजस्तत्त्वस्य अपेक्षया स्थूलतरम् च अस्ति एवम् अग्नेः अनन्तरम् जलस्य प्रादुर्भावः जातः सो तत्र तेजसत्त्वस्य अनन्तरं सो अग्नेः अनन्तरम् एव जलं निर्मितमस्ति तत्र अग्नेः अग्नेः अपेक्षया एतत् स्थूलतरं रूपं चित्त चित्तेन स्थूलकरं रूपं गृहीतं भवति तत्र जलस्य जलस्य रूपमस्ति रुचिः जलं तु द्रवमस्ति स्रवति जलः अपि अपि च वह जल जले रुचिः अस्ति अतः तस्य तस्य तन्मात्रमपि अस्ति तत्र रसतन्मात्रम् अपि तत्र अस्ति अपि च तन्मात्रं विहाय तत्र जले शब्दतन्मात्रमस्ति अपि च स्पर्शतन्मात्रमस्ति अपि च रूपतन्मात्रमस्ति तदेव रूपतन्मात्रमपि अस्ति सो so, अग्नेः अपेक्षया अत्र अपेक्षया एकम् अन्या अपि चत्वारि भवति तत्र तन्मात्र तन्मात्राणि भवति तत्र अतः तत्र शब्दस्य कारणं अतः एतत्तु स्थूल स्थूलं स्थूलतरमस्ति अग्नेः अपेक्षया स्वतः शब्दस्य एकं लघु ल प्रयोगं लघु एक्स्पेरिमेण्ट् इत्युक्ते लघु प्रयत्नं एव शब्द तन्मात्रं द्रष्टुं शक्नुमः यदा जल वहति तदा शब्दं कृत्वा एव सः वहति अतः जले शब्द शब्दतन्मात्रम् अस्ति इति वयं ज्ञातुं अपि च रूपमस्ति तद् तत् तद, तद, स्पर्ष्टुं शक्नो शक्यते तत् तस्य जलस्य रूपं द्रष्टुं शक्नुमः अतः एतानि सर्वाणि तन्मात्राणि तस् जलस्य तस्मिन् अस्ति इति जानीमः सो so तत्र अतः तत्र चत्वारि तन्मात्राणि सन्ति ते के शब्दः स्पर्शः स्पर्शः रूपं तत् अग्ने अपि अस्ति शब्दः तु आकाशे अस्ति स्पर्शः वायोः स्पर्शः अपि च शब्दः अस्ति रूपतन्मात्रम् अग्ने अग्नेः रूपं शब्दं स्पर्शं रूपम् अपि अस्ति जले रसमपि अस्ति तत्र चत्वारि भवन्ति एतत्तु स्थूलतरं जल जलतत्त्वस्य अपेक्षया स्थूलतरमपि अस्ति अतः न जलतत्वस्य अपेक्षया स्थूलतरम् अस्ति इति न न तेजस्तत्वस्य अग्नि अग्नि तेजस्तत्त्वस्य अपेक्षया जल जले जलं स्थूलतरम् अस्ति अपि च प्रादुर्भावः जातः तत् अहं न जानामि एवं अग्रेः अनन्तरं जलस्य प्रादुर्भावः अपि तस्य निर्माणम् अभवत् इति प्रादुर्भा अस्तु तत्र एव अस्ति वाटर् केमिन् टु बी आफ्टर् तैड् सो तत् अनन्तरम् एव तस्य निर्माणम् अभवत् सम्यक् समी समीचीनं भगिनि धन्यवादः अत्र इत्युक्ते अत्र क्रमेण वयं द्रष्टुं शक्नुमः अग्रे यद् भूतं आगतं तस्मिन् इतोपि एकम् अधिकं तन्मात्रं <laughs> वर्तते इति कृत्वा तदितोपि स्थूलतरम् इति वक्तुं शक्नुमः अत्र सर्वेषां भूतानाम् अपेक्षया यदा वयं क्षितितत्त्वम् अथवा पृथ्वीतत्त्वम् इति यद्वयम् अग्रे पश्यामः तत्र एकः भेदः कः इति चेत् क्षितितत्त्वे अपि रूपम् अस्ति एवं जलतत्त्वे अपि रूपम् अस्ति अग्नौ अपि रूपम् अस्ति परन्तु क्षितितत्वे न केवलं रूपम् अस्ति परन्तु यदा तत्र यदा पृथ्वेः ग्रहणं वयं कुर्मः हस्ते तदानीं तत्र स्वयं तस्य एकम् आकारम् एकः आकारः भवति तस्य अपि च तस्य पृथक्करणमपि शक्यते परन्तु जलस्य अथवा अग्नेः अथवा वायोः वा आकाशस्य एवं रीत्या पृथक्करणं न शक्यते इत्युक्ते हस्तद्वये किञ्चित् जलं वयं महा, तदा तदनन्तरं पुनः अधः स्थापयामः चेत् द्वयमपि एकं भवति तदानीं वयं वक्तुं न इदं जलम् अस्मात् हस्तात् इदं जलम् अस्मात् हस्तात् इति वक्तुं न शक्नुमः तर्हि जलस्तरे पृथक्करणं न शक्यते अपि यदा तत्र काष्ठद्वयम् अस्ति काष्ठद्वये अपि अग्निः अस्ति यदा काष्ठद्वयम् एकत्रीकरो कुर्मः तदानीं अग्निः एकं भवति तत्र पृथक्करणं केवलं काष्ठेन भवति न तु पृथक्करणं यदा द्वयमपि मिल मिलामः काष्ठद्वयं तदानीम् अग्निः अपि मिलति परन्तु पृथ्वी पृथ्वः विषये तथा वक्तुं न पृथ्वेः विषयं तथा वक्तुं न पृथ्याः विषये तथा वक्तुं न तत्र तु यदा हस्ते कण्ड कण्डद्वयं वयं स्वी स्वीकुर्मः तदानीं तत्र किं भवति इति चेत् द्वयमपि पृथक् एव तिष्ठति यतोहि तत्र तस्य तादृश आकारः भवति तर्हि तादृशस्वभावः अस्ति क्षितितत्त्वे पृथक्करणं शक्यते क्षितितत्वे क्षितितत्वे पृथक्करणं शक्यते इति कृत्वा एव ततः जीवस्य जीवस्य निर्माणं भवति ततः वयं तत्र मनः अपि अस्ति भिन्नभिन्नमन मनांसि अपि सन्ति अनन्तरं जीवात्मा अपि तत्र पृ जीवात्मनः अपि पृथक्करणं शक्यते यतोहि क्षितितत्त्वे तादृशस्वभावः अस्ति पृथक्करणस्य स्वभावः केवलं क्षितितत्वे अस्ति अन्येषु तत्त्वेषु न अन्येषु तत्वेषु न नास्ति पृथक्करणस्वभावः अस्तु इदानीं किञ्चित् अग्रे गच्छामः तर्हि क्षितितत्त्वस्य विषये पश्यामः तत्र सरला भगिनी स्वीकरोति वा आं नमस्कारः भगिनी क्षम्यता नमस्कारः भगिनी भवती अस्तु भवती आगतवती बहु सन्तोषः प्रयत्नं पृच्छति अस्तु सम्यक् श्रुवति तावत् आं श्रूयते त्वं जलम् इतोपि स्थूलतरं गृहीतम् स्तर पृथ्वीरूपेण पृथिव्या श्रितौ वा नूतनं तन्मात्रं गन्धं प्राप्नुमः श्रितौ वयं सर्वाणि पञ्चतन्मात्राणि प्राप्नुमः शब्द स्पर्श रूपम् रसः गन्धः च अतः अन्येभ्यः तत्त्वेभ्यः स्थितितत्त्वम् स्थूलतरम् अस्ति स्थितितत्त्वे शब्दतन्मात्रम् अस्ति यतः वयम् शब्दम् पाषाण धा धातु आदिषु अनेकेषु कठोरद्रवेषु गच्छन्तम् पश्यामः धनपदार् पदार्थाः पदार स्पष्टुम् शक्यन्ते तेषाम् निश्चितः आकारः रसः च भवति अन्ते केवलं घनकणस्य एव गन्धः अस्ति पृथ्व्याः अतः सर्वाणि पञ्चतन्मात्रे तन्मात्राणि सन्ति अतः पृथ्वी वा स्थितितत्त्वं वा सर्वेभ्यः तत्त्वेभ्यः स्थूलतमम् अस्ति सर्वेभ्यः तत्त्वेभ्यः स्थितितत्त्वमेव अन्ते सृष्टम् सूक्ष्मात् स्थूले परिवर्तनस्य अन्तिमे चरणे एवं चित्रं स्थूलतमरूपेण शिथितत्वरूपेण प्रकटीकरोति यथा इदानीं भवती उक्तवती चित्तात् पञ्चभूतानि निर्मितं भवन्ति प्रथमम् आगच्छति आकाश तदनन्तरं वायु तेज जल इदानीं पञ्चमम् अस्ति स्थितितत्त्वं यत, प्रत्येक यत् प्रथमं निर्मितम् अस्ति तत् सूक्ष्मम् एकम एकमेकं तन्मात्रा गृहीतं भवति आकाशे शब्द तन्मात्रा तदनन्तरं वायुः अस्ति तत्र शब्दः अपि स्पर्शः आगच्छति पूर्व यत् भूतं निर्मितम् अस्ति तस्यापि धर्म तन्मात्रा नूतनतर्मात्रा आगच्छति तत् वायोः अस्ति स्पर्शम् अपि शब्दम् तदनन्तरं यद् तेजमस्ति तत्र नूतनं रूपम् तन्मात्रा आगच्छति आदौ ये सन्ति शब्दतन्मात्रा स्पर्शतन्मात्रा रूपं तदनन्तरं वयं जल जलं यत् निर्मितं भवति तत्र चतुर्थतन्मात्रा आगच्छति इति अस्ति रसस्य तन्मात्रा शब्दस्पर्शरूपरस आगच्छति इदानीं स्थितितत्त्वे पञ्चमं तन्मात्रा गन्धः आगच्छति क्षित्तितत्त्वे पञ्चतन्मात्रा अन्तर्भूता भवन्ति तस्य अन्य किम् प्रधानता स्थिर भवति स्थितिः तत् यथा जलं द्रवं द्रवितं भवति इति स्थिर अस्ति तु पृथ्वी अतः यत् स्थिरं भवति तत् पृथक् करणस्य तस्य तस्मिन् इति एक एक लौकिक तस्य ता, गुणः आगच्छति पृथक् पृथक्करणस्य आकाशस्य अपेक्षया पृथ्वी स्थितितत्त्वम् अस्ति इति स्थूलतमम् अस्ति आका पृथ्वी अपेक्षया आकाश सूक्ष्मतमम् अस्ति इति आ, आ, आ, आ, प्र, पित्ति तत्त्वमस्ति अत्र साधु तु पाषा प्रमाणं किमस्ति पृथ्वीतत्त्वे सर्वं सर्वे तन्मात्राणि सर्वाणि तन्मात्राणि आगच्छन्ति इति च प्रमाणं यथा ये पाषाणः अस्ति एक पाषाणकठोर अस्ति किन्तु यदि वयं बृहत् पाषाण अस्ति तत्र वयम् एक एकस्मिन् एकस्मिन् एकदिशि यदि वयं तत्र किं वयं वदामः तस्य ध्वनिः अन्य अत्र अपि श्रोतुं शक्नुमः इति ध्वनिः पा पाषाणे अपि गच्छति तोती शब्दस्य प्रवाहः तत्र अपि भवति स्पर्शं तु वयं जानीमः कर्तुं शक्नुमः रूपम् अपि अस्ति रस यदि वयं वयं ये रस स्वतस्य नास्ति पतस्य जलस्य मिश्रणं भवति अतः तस्य रसस्य अनुभूतिः आगच्छति परं गन्धः इति विशेष स्थितितत्त्वस्य एव अणु अणु परमाणु सन्ति तेषां गन्ध एव विशेषधर्मः अस्ति समीचीनं भगिनी सम्यक् सम्यक्तया उक्तवती इत्युक्ते तत्र प्रत्येकस्मिन् भूते एकः विलक्षणः गुणः अस्ति एकः अधिकः गुणः अस्ति इदानीम् इदानीं वयं पश्यामः चेत् अत्र पृथिव्यां विलक्षणः गुणः कः इति चेत् गन्धः विलक्षणः गुणः अस्ति अत्र पृथिव्याम् इतोपि एकः विशेषः कः इति चेत् यथा मया कालपूर्वम् उक्तम् अत्र तस्य पृथक्करणं शक्यते तत्र वृत्याः कणाः ये कणाः सन्ति तान् वयं हस्ते ग्रहीतुं शक्नुमः हस्ते पृथक् पृथक् हस्तद्वये पृथक् पृथक् वयं स्थापयितुं शक्नुमः एवं तत्र वायोः ग्रहणं हस्ते न भवति एवम् अथवा अन्य अन्यस्य ग्रहणं हस्ते भवति इत् इदानीं जलस्य जलं हस्ते वयं स्थापयितुं शक्नुमः यतोहि तत्र हस्तः क्षितितत्त्वरूपेण अस्ति इति कृत्वा जलस्य स्थापनं भवति इत्युक्ते जलस्य ग्रहणार्थं तत्र क्षितितत्त्वम् अपेक्षितं क्षितितत्वम् अस्ति चेत् जलस्य ग्रहणं शक्यते क्षृतितत्त्वं नास्ति चेत् जलस्य ग्रहणम् अपि जलस्य ग्रहणं न शक्यते जलस्य पृथक्करणं तु न शक्यते यदा वयं पुनः एकत्र स्थापयामः चेत् तद् एकमेव भवति इति तत्र क्षृतितत्त्वस्य विलक्षणः विशेषः विलक्षणः विशेषः वर्तते स्थितितत्वे तु गन्धः अपि अस्ति अन्यस्य अपेक्षया गन्धः अपि अस्ति अन्यानि तन्मात्राणि अपि क्षितितत्त्वे अन्यानि तन्मात्राणि अपि सन्ति इति अत्र विषयः अस्ति तर्हि इदानीं अग्रे गच्छामः तत्र विजयाभग्नि अग्रे पठति वा आं महोदय <laughs> सृष्टिः क्रमेण स्थूलरूपेण ब्रह्मणः मानसिक सर्वेक्षणस्य कारणेन एव भवती एतत् एतदेव अत्र सूचितमस्ति खलु सृष्टि न तस्मात् पूर्वमेकं तस्मा शब्दः अस्ति खलु पठत् पठतु इन् ब्रह्मणः मानसिक मानसिक सर्वेक्षणस्य कारणेन एव एषा सृष्टिः क्रमेण सूक्ष्मात् स्थूलरूपेण परिवर्तिता अभवत् अहन्तत्वस्य विचारतरङ्ग अनुसारेण भ्रमणः चित्तं क्रमेण सूक्ष्मात् स्थूलतमरूपेण स्थितितत्त्वरूपेण परिवर्तितं परिवर्तितम् अभवत् स्थितितत्त्वे सर्वाणि पञ्चतन्मात्राणि सन्ति अतः स्थितितत्त्वम् एकं निर्जीवं वस्तु स्थूलतमं रूपम् अस्ति चित्ते पुरुषस्य श्रमिकरूपान्तरे रूपान्तरमेव विद्यते इति पूर्वमेव दृष्टं यदा पुरुषः प्रकृत्या गुणान्वितः अभवत् तदा सः चित्तरूपं धारति स्म एतदेव च चित्तं निर्जीवं स्थूलतमं स्थितितत्त्वं जातम् इदं चैतन्यं प्रकृत्या गुणान्वित् गुणान्वयं प्राप्य निर्जीवस्तुरूपेण प्रकटितम् अभवत् Uh, तस्यां दिशि चैतन्येन अवश्यं हि परमान्तं प्राप्तं च अस्यां परिवर्तितायां दशायां परिवर्तितायां दशायां चैतन्यं निर्जीव्यवस्तु इव सर्वथा स्थूलं जातं निर्जीवस्तु इव सर्वथा स्थूलं जातम् अस्मात् स्थूलतरं किमपि भवितुम् अर्हति स्म ब्रह्मणः मानसिकसर्वेक्षणस्य इत्युक्ते हा इत्युक्ते तत्र इयं सृष्टि कथं जायते इति चेत् ब्रह्मणः चित्ते एव कल्पनारूपेण जायते खलु इयं सृष्टि कल्पना एव खलु इति कृत्वा ब्रह्मणः मानसिकस्तरे यदा चित्ते कल्पना जायते तदानीम् एतादृशपरिवर्तनं जायते सूक्ष्मात् स्थूलपर्य स्थूलपर्यन्तं परिवर्तनम् अत्र ब्रह्मण ब्रह्मणः सङ्कल्पमात्रेण अत्र चित्तं तादृशं भवति अत्र सङ्कल्पमात्रेण विचारतरङ्ग अनुसारेण सः चिन्तितवान् अतः तत्र चित्तं क्रमेण सूक्ष्मात् अत्र सृष्टिः क्रमेण भवति इति सूक्ष्मात् स्थूलरूपेण परिवर्तिता अभवत् पूर्वम् एतत् सूक्ष्मेव परन्तु तस्य चिन्तितमात्रेण सङ्कल्पमात्रेण सूक्ष्मात् स्थूलरूपेण परिवर्तिता अभवत् अहं तत्त्वस्य विचार <laughs> तरङ्ग अनुसारेण अहं तत्त्वम् अत्र अस्ति तत् विचार अनुसारेण एव भ्रमणरचितं क्रमेण सूक्ष्मात् स्थूल स्थूलतमरूपेण भवति इति अनन्तरं स्थितितत्त्वरूपेण परिवर्तितम् अभवत् पृथिवी इति अत्र स्थूलरूपेण भवति इति चितितत्त्वे सर्वाणि पञ्चतन्मात्राणि सन्ति अत्र शब्दम् रूपं स्पर्शम् इत तथैव अत्र तन्मात्राणि पञ्चतन्मात्राणि सन्ति अतः स्थितितत्त्वम् एकं निर्जीवं वस्तु भूतले भूतले अत्र अस्ति अतः तत्र निर्जीवं वस्तु अत्र स्थूलतमं रूपम् अस्ति द्रष्टुं शक्नुमः आकाश इति सूक्ष्मम् परन्तु अत्र स्थितितत्त्वं स्थूलरूपम् अस्ति चित्ते पुरुषस्य क्रमिकरूपान्तरमेव विद्यते इति पूर्वमेव दृष्टम् <coughs> यदा पुरुषः प्रकृत्या गुणान्वितः सत्यमेव एतत् अत्र सत्वरजतम इति पुरुषः प्रकृत्या गुणान्वितः एव अभवत् तदा सः चित्तरूपं धारति स्म एतत् अत्र अक्किव् करणीयं चेत् अत्र चित्तरूपं धारति स्म एवमेव एतदेव धरति धरति धरति न धरति धरति धरति अतः एव कार्यं कर्तुम् अत्र शक्नुमः प्रकृत्या गुणान्वितः सः पुरुषः चित्तरूपं धरति स्म धारति स्म धरति धार दर, धरति एव अस्तु एतदेव चित्तं निर्जीवं स्थूलतमं स्थितितत्त्वं जातं स्थूलरूपमस्ति अत्र स्थितितत्त्वम् इदं चैतन्यं प्रकृत्या गुणान्द्वयं प्राप्य निर्जीवस्तुरूपेण प्रकटितम् अभवत् अत्र प्रकृत्या गुणान्वितः पुरुषः चैतन्यरूपेण अत्र निर्जीववस्तुरूपेण अत्र साक्षात्कारेण अत्र अभवत् एव तस्यां दिशि चैतन्येन अवश्यं हि परमान्तं प्राप्तुं तत् चैतन्येन <coughs> तत् दिशि तस्यां दिश्या दिशि चैतन्येन अवश्यं हि परमाण परमान्तं प्राप्तं च अस्यां परिवर्तितायां दशायाम् चैतन्यं निर्जीवस्तु इव सर्वथा स्थूलं जातम् अतः एव अत्र परिवर्तिता चैतन्यरूपेण परिवर्तित भ्रमणः अत्र परिवर्तिता सङ्कल्पमात्रेण भवति अतः एव अत्र स्थूलरूपे सूक्ष्मरूपेण स्थूलं जातमत्र अस्मात् स्थूलतरं किमपि न भवितुम् अर्हति स्म स्थूलत्तरम् अस्ति परन्तु अत्र किमपि अत्र भवितुं बा, न अर्हति स्म नमस्कारे अस्तु okay, समीचीनं समीचीनं सम्यक् अस्ति अत्र मानसिकसर्वेक्षणम् इत्युक्ते किम् इति चेत् अत्र सृष्टिक्रमः तु परमपुरुषस्य चित्ते भूव मनसि क्रमः जायमानः अस्ति सर्वं तु परमपुरुषस्य भूममनसि एव जायमाना अस्ति सृष्टिः जायमाना तर्हि यदा तत्र परमपुरुषस्य अहं तत्त्वं निर्मितं भवति तदानीम् अहं तत्त्वम् एतद् सर्वं कल्पयति इयं सृष्टिः इयं सृष्टिः या अस्ति तां अहं तत्त्वं कल्पयति कुत्र कल्पयति इति चेत् चित्ते कल्पयति तत्र चित्तमेव तत्र चित्तम् आरम्भतः वयं किं वदामः वदामः चित्र चित्र, चित्र अस्ति इति वयं वदामः चित्रपटलं तर्हि बाह्यवस्तुनः आकारं गृह्णाति इति वयं वदामः अत्र बाह्यवस्तु किमपि नास्ति सर्वं तु परमपुरुषस्य मनसि एव जायमाना अस्ति तर्हि अहं तत्त्वस्य निर्देशानुसारं चित्तं भिन्नभिन्नरूपाणि गृह्णाति इदानीं चित्तम् अत्र पञ्चभूतानां रूपं पञ्चभूतानां रूपं चित्तेन गृहीतं तर्हि इदानीं चित्तम् अन्ततो गत्वा क्षितितत्त्वरूपेण चित्तं परिवर्तितं खलु चित्तं तत्र वस्तुतः किमपि नास्ति मनः एव परिवर् परिवर्तितं चित्तमेव परिवर्तितं भूतरूपेण तर्हि आरम्भतः पुरुषात् सर्वम् आरब्धं पुरुषः एव मनः अभवत् पुरुषः एव इदानीं चित्तमपि अभवत् तर्हि अत्र इदानीं वयम् एकम् एकं पाषाणखण्डं पश्यामः चेत् चेदपि तत् अस्ति पाषाणखण्डः पाषाणखण्डः किमपि नास्ति ब्रह्म एव अस्ति ब्रह्मणः परिवर्तितं रूपम् अस्ति तदे तदेव अत्र मानसिकसर्वेक्षणम् इति वयं वदामः इत्युक्ते तत्र सर्वं तत्र सर्वं परमपुरुषस्य मनसि एव अस्ति सर्वं मनसि एव अस्ति सर्वं मनसि एव जायमानः अस्ति सर्वं मनसि एव जायमानम् अस्ति तर्हि तत्रैव सर्वं जायमानमस्ति तर्हि विहा इदानीं तत्र पुरुषात् तत्र अतिस्थूलतमवस्तु पाषाणखण्डः अपि पुरुषात् एव पाषाणखण्डः निर्मितः अस्ति तत् सर्वम सर्वमपि परमपुरुषस्य चित्ते एव अस्ति ओके अग्रे गच्छामः वा इदानीं किं सरितभद्नि अग्रे पठति अस्ति वा सरिता भगिनी अस्ति वा भगिनि सरिता वा भगिनि अस्तु तर्हि सरला भगिनी स्वीकरोतु द्रव्यस्य स्थूलतमरूपं यथा निर्जीवस्तून् अवस्था तथा भूमाचैतन्यप्रकृतेः अत्यन्तम् वा महत्प्रभावेण एव प्राप्तम् अस्ति पुरुषस्य अथवा भूमाचैतन्यस्य गुणान्वयम् करणार्थम् अत्यन्तम् स्थूलावस्थाम् प्रति पुरुषम् प्रापयितुम् गुणतत्त्वस्य सामर्थ्यम् सम्पूर्णतया प्रक्तुम् भवति तथा चूलीकरण से दिशि प्रकृति इतनी अवय कर असमर्थितत प्रकृति पुष्च उभौीव इतनी स्थूलतर भक्नो तस्य इतोऽपि गुणान्वयम् कृत्वा पुरुषम् इतोपि स्थूलतरम् कर्तुम् असमर्था भवति यदा प्रकृतिपुरुषौ स्वाभावि स्वाभिव्यक्तिपरिधिम् प्रा, प्राप् प्राप्नवन्तौ तदा सृष्ट्या अंतिम अवस्था वा इति प्रश्नः उत्पद्यते यदि स्थितितत्त्वम् सृष्टेः अन्तिमे चरणे अस्ति तरी वनस्पतयः जन्तवः इत्यादीनां सजीववस्तूनाम् उपस्थितेः विषये अन्यप्रश्नः अपि उत्पद्यते सृष्टेः निर्माणे सूक्ष्मात् स्थूलपर्यन्तम् एतानि सजीववस्तूनि कुत्रपि न एतानि कथं कदा निर्मितानि इति अतीव प्रासङ्गिक प्रश्नः अस्ति इदानीम् एतत् पर्यन्तं वयं दृष्टवन्तः पुरुषं प्रकृतेः प्रभावेन गुणान्वितं भवति तदनन्तरं प्रथमं भूमामनस्य निर्माणम् अस्ति यदि भूमामनस्य मनसि इति कल्पना आगच्छति तदनन्तरं भूमामन महत्तत्त्वम् अहं तत्त्वे चित् अ चित्तम् इति प्रवर्तते यदि भू महत्तमस्ति अहम् अस्मि अहं तत्त्वे अहं करोमि चित्ते इति सतोगुण रजोगुण पृथ्व्या तमोगुणस्य प्रभावेन इति रूप् रूपाणि आगच्छन्ति चित्ते इति तमस् तम, तमो मोगुणस्य प्रभावेन चित्ते इति आकारित भवति चित्तं तदनन्तरं चित्तं वयं दृष्टवन्तः पञ्चभूतानि ते उत्तरोत्तरस्थूलतरं भवति एका एका तन्मात्रा अधिकमधिकम् आगच्छति यदि सूक्ष्मतात् स्थूल स्थूलतमं प्रति प्रति भूतानि ते ये निर्माणि सन्ति तु अतः इदानीं प्रश्नः अस्ति वयं दृष्टवन्तः स्थितिः निर्जीव अस्ति पाषाणखण्डकठोर अस्ति तस् अचर अस्ति तत्र कथं तत्र चैतन्यवस्तु वयम् इति अनुभवं कुर्मः इति प्रश्नः अस्ति तु द्रव्यस्य स्थूलतमरूपं यदा निर्जीवस्तु अवस्था तथा भूमाचैतन्यप्रकृतेः अत्यन्तं च महत् प्रभावेण एव प्राप्तम् अस्ति वयं महत् प्र, प्रभावेण एव सर्वम् अभवत् विचारेण यत् कल्पना रूपेण अस्ति तु स्थूलतमं निर्जीवस्तु अस्ति तस्य आदौ द्रव्यं द्रव्यमस्ति तस्य आदौ अेज वायुः इति आगच्छति तु पुरुषस्य अथवा भूमाचैतन्य गुणान्वयकनार्थं अत्यन्तं स्थूलावस्थां प्रति पुरुषं प्राप्यतुं गुणतत्त्वस्य सामर्थ्यं सम्पूर्णतया प्राप्तुं भवति इति वयं जानीमः तथा च स्थूलीकरणस्य दिशि प्रकृतिः इतोपि अधिकं पुरुषं गुणान्वयकर्तुम् असमर्था भवति यदा इदानीं स्थू इति या प्रक्रिया अभवत् सूक्ष्मतरस्य स्थूलीकरणम् इति यत् भवति पुरुषम् अधिकम् अधिकं गुणान्वितं भवति इति अस्ति वा इति वक्तुं शक्नुमः वा अधिकं पुरुषं गुणान्वयं कर्तुं किन्तु mm -hmm. तस्य तस्मात् पुनः कथं वयं सृष्टिः पश्यामः जीवानि सन्ति यथा एक पशवः पशवः पक्षिणः अपि मानवः ते तु ते तु चैतन्य वस्तु अस्ति तेषां हृदि चैतन्यरूपेण अपि वयं द्रष्टुं शक्नुमः तु कथम् इदानीं चैतन्यम् आगच्छति क्षितितत्त्व तु वयं दृष्टवन्तः तस्य स्थूलतमम् अस्ति तत्र निर्जीवम् अस्ति स्थूलतरं भवितुं तु अधिकं शिशितत्त्वात् अधिकं स्थूलतमं न भवितुं शक्नोति इति किम् अस्ति इति आश्चर्य साधु आश्चर्यस्य वार्ता तावदेव आश्चर्यस्य वार्ता यद् यद् स्थूलतमम् इव भासते तस्मात् जीवः निर्मितः अस्ति इति वक्तुं तत्र आश्चर्यस्य वार्ता इत्युक्ते इत्युक्ते क्रमः तथा अस्ति इत्युक्ते सञ्चरक्रमे सूक्ष्मात् स्थूलपर्यन्तं गमनं प्रतिसञ्चरक्रमे स्थूलात् सूक्ष्मपर्यन्तं गमनम् okay. इत्युक्ते पुरुषः यदा इच्छति तदानीं प्रकृतेः प्रभावेन सः बद्धः भवति यदा पुरुषः इच्छति तदानीं सः बद्ध बद्धात् मुक्तः भवति इदानीं क्रमेण तस्य मुक्तिः जायमाना अस्ति पुरुषस्य यदा क्रमेण मुक्तिः जायमाना आसीत् तदानीं क्रमेण प्रकृतेः गुणस्य प्रभावः न्यूनः न्यूनः यदा भवति तदानीं शि गेट्स् लिबरेटेड् प्रकृ पुरुष गेट्स् सौ स्लोलि लिबरेटेड् फ्रम् दि द प्रकृति यदा तत्र एवं भवति तदानीं तत्र जीवः आयाति पुनः जीवा पुनः तत्र जीवस्य वर्धनमपि क्रमेण जाय जायते तदानीं दशवादने पुरुषस्य किं मनुष्यस्य मनुष्यस्य आविर्भावः भवति तदानीं तस्य अवसरः अस्ति अग्रगतिं प्राप्तुम् अवसरः अस्ति पुनः सः पुरुषः भवितुम् अर्हति पुनः mm -hmm. सः देवः भवितुम् अर्हति यस्मात् सः आगतः पुनः तत्र गन्तुं शक्नोति एतत् mm -hmm. सर्वं पुरुषस्य परमपुरुषस्य लीला अस्ति कथम् आयाति इति अस्माकम् आश्चर्य अस्ति परन्तु एतत्तु पुरुषस्य लीला अस्ति अत्र किञ्चित् इतोपि वदामि इदम् अयं परिच्छेदः बहु बहु मुख्यः अस्ति यद्यपि अत्र बहु किमपि न दत्तम् परन्तु अस्माभिः सृष्टिचक्रं दृष्टं खलु पूर्वं सृष्टिचक्रं दृष्टं खलु इत्युक्ते तत्र यदा प्रकृते यदा प्रकृतेः तमोगुणस्य प्रभावः चित्तस्य उपरि अधिकः भवति तदानीं किं भवति क्रमेण पञ्चभूतानि निर्मितानि भवन्ति अनन्तरं षड्वादने स्थितितत्त्वस्य निर्माणं भवति स्थितितत्त्वं चित्तमेव क्षितितत्त्वरूपेण परिणमते तर्हि इदानीं क्षितितत्त्वं तु बहु जडपदार्थः अस्ति तस्य तत्र तस्मिन् चैतन्यस्य प्रतिबिम्बः न दृश्यते तत्र जडः जडः इव अस्ति तत्र किमपि नास्ति परन्तु तस्मात् एव परन्तु यदि वयं मनुष्यं पश्यामः अथवा सस्यानि पश्यामः अथवा पशवः पशून् पश्यामः तदानीं तत्र तु चैतन्यम् अस्ति तत्र तु पुरुषः अस्ति इति दृश्यते खलु अस्माकम् अनुभवः अस्ति खलु तत् अस्ति इति किञ्चित् तत्र द्रष्टव्यमस्ति तत् कथमस्ति इति किञ्चित् द्रष्टव्यमस्ति तत् तस्य विषये तत्र विस्तृत विस्तृतरूपेण वक्तव्यं यद्यपि अत्र करपत्रे अधिकं न दत्तं तर्हि अत्र किम् अवगन्तव्यम् इति चेत् प्रकृतेः प्रकृतेः तमोगुणस्य प्रभावः यदा चित्तस्य उपरि अधिकम् अधिकम् अधिकं भवति तदानीं तत्तु क्षितितत्त्वरूपेण प्रकटितं भवति परन्तु इदानीम् इतोपि अधिकः तमोगुणस्य प्रभावः चित्तस्य उपरि भवति चेत् तदानीं तत्र आश्चर्यस्य वार्ता भवति यदा अनुकूलवातावरणम् अपि अस्ति तमोगुणस्य प्रभावः अधिकः भवति चित्तस्य उपरि तदानीं तस्मात् एव जीवः निर्मितः भवति यदि अनुकूलवातावरणं नास्ति चित्तस्य उपरि तमोगुणस्य प्रभावः अधिकः भवति तदानीं जडस्फोटः भवति तदानीं तत्र क्षितितत्त्वं क्षितितत्त्वस्य भागाः भवन्ति ये भागाः पुनः पञ्चभूतेषु तेषां मेलनं भवति इत्युक्ते तत्र क्षितितत्त्वे यः भागः आकाशतत्वात् आविर्भूतः तत्र आकाशतत्त्वे तस्य मेलनं भवति एवं वायुतत्वे मेलनं भवति पुनः एवं तत्र ये खण्डाः सन्ति पृ क्षितितत्वे ये खण्डाः सन्ति तेषां चूर्णीभवनं भवति चूर्णीभूत्वा ते पुनः स्वस्य भूते पुनः तेषां मेलनं भवति यदा अनुकूलवातावरणम् अस्ति तदानीं क्षितितत्वात् एव जीवस्य निर्माणं जीवस्य आविर्भावः भवति अस्य विषये अस्य विषये ये तत्र वैज्ञानिकाः सन्ति ते अपि अधिकं वक्तुं न शक्नु शक्नुवन्ति ते ते अधिकं न जानन्ति ते अपि अधिकं तस्मिन् विषये न वक्तुं शक्नोति षड्वादनात् आरभ्य क्रमेण विकासः कथं भवति इति तस्मिन् विषये ते वदन्ति डार्विनिन् एवल्युशन् इति एवं एवं ते वदन्ति परन्तु तत्र जीवः कथं पुरुषात् कथं जीवः जीवस्य आविर्भावः अभूत् इति ते कथं ते तस्मिन् विषये अधिकं वक्तुं न शक्नुवन्ति तत् इतो इत्युक्ते तत्र इतोपि शोधनकार्यस्य आवश्यकता अस्ति कथं क्षितितत्वात् तत्र पुरुषः एवं रीत्या स्थूली स्थूली स्थूलरूपेण पाषाणखण्डः इव तस्य आविर्भावः अभवत् तर्हि तत्र किमपि नास्ति खलु पाषाणखण्डः पुरुषः तु पुरुषे तु तत्र पुरुषः तु निर्जीववस्तु नास्ति पुरुषः तु जीवितः अस्ति पुरुषः <Purusha> mm -hmm. निर्जीवः नास्ति परन्तु सः पुरुषः एव इदानीं निर्जीववस्तुवत् दृश्यते खलु mm -hmm. तर्हि यदा वयं चैतन्यम् इति वयं वदामः चैतन्ये तु जीवः अस्ति चैतन्ये चैतन्यं तु निर्जीवः नास्ति चैतन्यम् इस् एसेन्स् आफ़् लैफ़् खलु परन्तु पाषाणखण्डः तु तस्मात् एव निर्मितम् अस्ति पाषाणखण्डः तस्मात् एव आविर्भूतः अस्ति तर्हि तत्र यदा क्षितितत्वस्य उपरि अधिकः अधिकः तमोगुणस्य प्रभावः यदा भवति तदानीं किं भवति इति चेत् तदानीं तत्र तस्मात् एव तस्मात् एव तत्र जीवस्य आविर्भावः भवति यदा अनुकूलवातावरणं नास्ति तदानीं क्षितितत्त्वस्य चूर्णीभवनं यदा भवति तदानीं तत्तु विस्फोटः इति वदामः पुनः चूर्णीभूत अंशाः पुनः मूलभूत मूलभूत मूलभूतेषु तस्य चूर्णीभूतानां अंशानां मेलनं भवति तर्हि तत्र अस्माभिः आकाशात् आरभ्य इदानीं क्षितितत्त्वपर्यन्तम् अस्माभिः प्राप्तं यदा स्थूलीकरणम् अधिकं जायते अत्र क्षितितत्वस्तरे तदानीं पुनः नूतनभूतम् आविर्भूतं नास्ति परन्तु यदा प्रभावः तमोगुणस्य प्रभावः अधिकः अधिकः अधिकः भवति तदानीं तस्मात् एव तत्र जीवस्य आविर्भावः भवति यदा अनुकूलवातावरणं नास्ति तदानीं जडस्फोटः भवति इति एवं रीत्या तत्र सृष्टि क्रमस्य शुचिचक्रस्य क्रमः जायते जडस्फोटः यदा भवति तदानीं तत्र शुचितत्वं पुनः आकाशतत्त्वे जलतत्त्वे अग्नितत्वे वायुतत्वे पुनः तेषां मेलनं भवति पुनः एवमेव सृष्टिचक्रः पुनः जायते ततः पुनः यदा प्रभावः अधिकः भवति पुनः आकाशः एव वायुः भवति वायुः एव अग्निः भवति अग्निः एव जलं भवति जलमेव श्रुतितत्त्वं भवति श्रुतितत्त्वात् रिवर्स् अपि भवतु शक्नोति फार्वर्ड् अपि भवतु शक्नोति इति सञ्चरम् अस्तु यदा तत्र अनुकूलवातावरणं कैण्ड् आफ़् आफ़् इस् If it is not okay. dead, then it, there is a jaras pota. Jaras. This pota. Hmm? Yeah. Mm -hmm. Okay. So it is a Devatra Varnitam Vartate. Yeah, like that uh, sometimes when we have a bag of rice left and you don't do anything and then you see there are worms coming out from there. Mm-hmm. So how yeah. they came out. Yeah. Okay. Mm -hmm. लैक् like इवन् अत्र uh, uh, यद् यः पाषाणखण्डः अस्ति तस्यापि कदाचित् वयं विभजनं कुर्मः चेत् तत्र ततः अपि तत्र मण्डुकः बहिः आयाति कदाचित् दृष्टं वा न न जानामि जाना परन्तु मया तु दृष्टं कदाचित् mm -hmm. तत्र पाषाणखण्डस्य यदा तत्रा पाषाणखण्डः भग्नः भवति तदानीं ततः mm -hmm. तत्र मण्डुकः बहिः आयाति When we were, I mean, at, at least I know, when I was small, I used to have, the lices used to come in the hair, right? Mm -hmm. So how they used to come, I used to wonder how they come the, in. So you used tattu, to wash the hair. Tattu, no, that's not the only thing I've ever done. That's not the only thing I've ever done. Yeah, but if nobody has it, then. <laughs> from, from the... the sweat and all that exists. Yeah, <laughs> yeah, yeah, that's true. That's true. If it's not kept clean, yeah. Suddam nasi cheta danim do it. Hmm. Atra sagana kurma haas. See if she's a topic inchita agrimas aptehe punha. Marayami. Atra sagana kurma haas. Samaya haatika ha. As tu tarhi. Vanyavadaha. Namaskar ha. Namaskar ha. Namaskar ha. Namaskar ha. Namaskar. Namaskar.